प्रश्नोपनिषत् प्रथमः प्रश्नः श्रीगुरुभ्यो नमः हरिः ॐ वज्रं कर्णेभिः शृणुजाम देवाः वज्रं पश्ये मा चभिर्यजत्रा चिरैरङ्गैरेतुष्ठुभागं शस्तनोभिः यशे मदेव हितैजदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदा स्वस्ति नस्ताक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ सुखे सा च भारद्वाजसैव्यस्य सत्यकामः शौर चारग्य कौसल्याश्वलायनो भागवो वैदर्भी कबंधी कात्यायनस्ते हेते ब्रह्मपरा ब्रह्मनिष्ठा परं ब्रह्मावेश वक्षती भगवलादसन्ना काह्णसरिशिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवस्यथ यथा कामं प्रश्नान् पृच्छत यदि विज्ञास्याम सर्वं हवो वक्ष्याम इति अथ कबन्धी कार्त्यायन उपेत्य प्रपक्ष भगवन्कुतो ह वा इमा प्रजा प्रजायन्त इति तस्मै सहोवाच प्रजाकामो वै प्रजापतिः स तप्यत स तपस्तप्ता समिथनमुत्पादयते रयिं च प्राणं चेत्यैतो मे बहुधा प्रजा करिष्यत इति आदित्यो ह वै प्राणोरैरेव चन्द्रमारैर्वा एतस्सर्वं यन्मृतं चामृतं च चा तस्मान्मृतिरेव रैः अथादित्य उदयन्यप्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते यदक्षिणां यत् प्रतीचिं यदुदीचिं यदथो यदूर्ध्वं यदन्तरा दिशो यः सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिसु सुसन्निधत्ते स एष वैश्वालरो विश्वरूपप्राणोऽग्निरुदयते तदेतदृचाभ्युक्तम् विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तं सहस्ररश्मि स तथा वर्तमानप्राणप्रजानामुदयत्ये ससूर्य सम्बत्सरो वै प्रजापति तस्यायने दक्षिणं चोत्तरं च तद्येह वै तधिष्ठा पुरते कृतमित्युपासते ते चान्द्रमसमेव लोकम् अभिजाजयन्ति त एव पुनरावर्तन्ते तस्मादेति ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते एषः अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्वस्यादित्यमभिजयन्ति एतद्वै प्राणानां मायतनमेतदमृततम् अभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेश श्लोक पञ्चपादं पितरं दादसाकृतिं दिव आहो परे अर्धे पुरीषिणम् अथे मे अन्य उपरि विचक्षणं सप्तचक्रे सडर आहुरर्पितमिति मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रैः शुक्लः प्राणस्तस्मादितिरिष्य शुक्लयुष्टिं कुर्वन्तितर इतरस्मिन् अहोरात्रो वै प्रजापतिस्तस्या हरेव प्राणो रात्रिरेव रैः प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्रात्रौ रत्या संयुज्यन्ते अन्नं वै प्रजापते सतो भव वै तद्वैतस्तस्मादिमा इति तद्देहवै तत्प्रजापतीव्रतं चरन्ति ते मिथुनमुत्पादयन्ति ब्रह्मलोको येषां तपो ब्रह्मचर्यं सत्यं प्रतिष्ठितं तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममणितं न मायाचेति द्वितीयः प्रश्नः अथ हैनं भार्गवो वैधर्वी प्रपक्ष भगवन् कत्येव देवा प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते क पुनरेषां वरिष्ठ इति तस्मै स होवाचाकाशो ह वा देवो वायुरग्निराप पृथ्वी वाङ्मनश्चक्षुः श्रोत्रं च ते प्रकाशाभिवदन्ति वयमेतद्बाणमवष्टव्य विधारयामह तान् वरिष्ठप्राणुवाच मामोहमापद्यथाहमेवै तत्प्रपञ्चधात्मानं प्रविभज्यै तद्बाणम् तत अवष्टव्य विधारयामिति स्त्री श्रद्धाना बभूवुः अभिमाना दुर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्वोत्क्रामन्ते तस्मिंगश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते तद्यथामक्षिकां मधुकरराजानमुत्क्रामन्तं सर्वा एतूत्क्रामन्ते तस्मिंगश्च प्रतिष्ठमाने सर्वा प्रातिष्ठन्त एवं वाङ्मनश्चक्षुश्रोत्रं च ते प्रीता प्राणं सुवन्ति एषोऽग्नितपत्येष परजन्यो येष पर्जन्यो मघवानेषु वायुरेष पृथिवीरैर्देव सदसच्चामृतं च यत् अरायुरथनाभौ प्राणे सर्वं प्रतिष्ठितं ऋचोयजुगंसि सामानि यज्ञच्छत्रं ब्रह्म च प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे त्वभ्यं प्राणप्रजा बलिं हरन्ति य प्राणैः प्रतितिष्ठति देवानामसि वह्नितमः पितॄणां प्रथमाश्वधा ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि इन्द्रस्त्वं प्राण ते सारुद्रोऽसि परिलक्षिता त्वमन्तरिक्षेतरसि सूर्यस्त्वं ज्योतिषाम्पतिः यदा त्वमभिर्वर्षस्थस्यथीमा प्राणते प्रजा आनन्दरूपा तिष्ठन्ति कामान्यान्नं भविष्यतीति व्रात्यस्त्वं प्राणैकर्षिरत्ता विश्वस्य सम्पतिः वयमाद्यस्य दातारपिता त्वं मातरिश्वनः या ते तनिर्वाची प्रतिष्ठिता या श्रोत्रे या च मनसि सन्तता कुर्मोत्क्रविः प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितं मातैव पुत्रान् रक्षस्फुधिश्च प्रज्ञां च विधेयत इति तृतीयः प्रश्नः अथ हैनं कौसल्यस्यास्वलायन प्रपक्ष भुवन्कृत एष प्राणो जायते कथमायास्यस्मिशरीर आत्मानं वा प्रविभज्य कथम् प्रातिष्ठते केनोत्क्रमते कथं दाहिमधीम् न भिधत्ते कथमध्यात्ममिति तस्मै स होवाचाति प्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं द्रवीमि आत्मन एष प्राणो जायते यथैषा कुत्पुरुषेच्छायै तस्मिन्नेतदाततं मनोकृतिर्नायात्यस्मिन् शरीरे यथा सम्राटे बाधिकृतान् युक्ते एतान् ग्रामाणे ताग्रान् मानधीतिष्ठस्वे त्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथक्वेव सन्निधत्ते पायुपस्थे पानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठति बद्धेतु समानः एत हेतन्धूतमन्नं स मन्नयति तस्मादेता तप्तार्जसो भवन्ति यदि शेष आत्मा अत्रैतदेकशतं नाडीनां तासां सतं सतमेकैकस्यां द्वासप्ततिर्द्वाससप्तति प्रतिशाखानाडी सशस्त्राणी भवन्त्यासुव्यानश्चरति अथैकयोर्ध्वम् उदान पुण्येन पुण्यं लोकं नयति पापेन पापमुभ्यामेव मनुष्यलोकम् आदित्यो ह वैब्राह्यः प्राण उदयत्ये स हेन संप्राण प्राणमनुगृह्णानः पृथिव्यां ध्या देवता सैषा पुरुषस्यापानम् अवष्टभ्यान्तरा जराकाशससमानो वायुर्व्यानः तेजो ह वा उदानस्तस्मादुपसान्ततेजाः पुनर्भवीन्द्रियै मनसि सम्पद्यमानये यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसायुक्तः सहात्मना यः शक्तिं सङ्कल्पितं लोकं नयति य विद्वान् प्राणं वेदनः प्रजाह्यते मृतो भवति तदेतश्लोकः उत्पत्तिमायां मायतिं स्थानं बभुत्वं चैव पञ्चधा अध्यात्मं चैव प्राणश्च विद्यायामृतमस्नुते विद्यायामृतमस्नुत इति चतुर्थः प्रश्नः अथ हैनं शौर्यायणि गार्ग्यः प्रपक्षं भगवन्ने तस्मिन् पुरुषे कानि का अस्गृति कतर एसद्ना पश्य कस्तुमती सर्वे संप्रतिता भमनीति तस्मै सहोवाच यहा मरीच्छत सर्वा एकी मंडलएक सा पुनः पुनरं हृदयत प्रचरन्त्येवं हवैतः सर्वं परे देवे मनस्येकीभवति तेन तर्हे स पुरशो न शृणोति न पश्यति न जिघ्रति न रचयति न स्पीसतिं नाभिवदति ना दत्ते नानन्दयति न विसृजते नेयायति स्वप्रीतित्याक्षते प्राणाग्नय एव तस्मिन् पुरे जाग्रति गार्हपत्यो ह वा एषो पानो व्यानोन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः यजुश्वासनिश्वासवेतावाहुति समं नयतीति समानः मनोह वा व्ययजमान यजमानमहर्हर ब्रह्मगमयति अत्रैः स देव स्वप्ने महिमानम् अनुभवति यद्दृष्टं दृष्टमनुपश्यति श्रुतं सुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः प्रत्यनुभवति दृष्टं च दृष्टं च श्रुतं च श्रुतं चानुभूतं चानुभूतं च सच्चाः सच्च सर्वं पश्यति सर्वः पश्यति स या तेजसाभिभूतो भवत्यं तै ते स एव स्वप्नान्नं पश्यन्तत तदैतस्मिन् शरीरे एतत् भवति यथा सौम्य वयां शिवासो वासो वृक्षं सम्प्रतिष्ठन्ते एवं भवैतः सर्वं तर् आत्मनि सत्प्रतिष्ठते पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घाणं च घ्रातव्यं च रसश्च रयिसन्द्रितव्यं च तक्षः स्पर्शयितव्यं च वाक्य वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोधव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं चेतयितव्यं च तेजस्य विद्योतयितव्यं च प्राणश्च विधायितव्यं च एष हि द्रष्टा स्रष्टा स्रोता घ्राता रसीता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः स परेक्षर आत्मनि सम्प्रतिष्ठते परमेवाक्षरम् प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरम् वेदयति यस्तु सौम्य स सर्वज्ञ सर्वो भवति तदेश श्लोकः विज्ञानात्माथ देवैश्च सर्वैः प्राणाभूतानि सम्प्रतिष्ठन्ति यत्र तदक्षरं वेदयते यस्तु सोम्य सर्वज्ञ सर्वमेवाविवेशेति पञ्चमः प्रश्नः अथ हैनं सेव्य सत्यकामप्रपक्ष स यो तद्भगवन्मनुष्येषु प्रेणान्तमोङ्कारम् अभिध्यायीत कतमं वावस तेन लोकं जयतीति तस्मै स उवाच एतद्वै सत्यकामपरं च परं च ब्रह्म यदोङ्कारः तस्माद्विद्वान्नेते नैवायते तनेनैकतरमन्वेति स यद्येकमात्रम् अभिध्यायि स तेनैव संवेदितस्तूर्णमेव जगत्यामभि सम्पद्यते तमिचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति अथ यदिति मात्रेण मनसि सम्पद्यते सौन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् स सोमलोके विभूतिमनुभूय पुनरावर्तते य पुनरेतं त्रिमात्रेणो मित्ये तेनैवाक्षरेण परं पुरुषम् अभिध्यायीत स तेजसि सूर्ये सम्पन्नः यथा पादोदरस्वचा विनिर्मुच्यत एव वै सपाप्मना विनिर्मुक्तः ससामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरुषयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः तिस्रो मात्रा मृत्युमात्यप्रयुक्ता अन्योन्यसत्ता अनविप्रयुक्ता क्रियासु बाह्यामभ्यन्तरं मध्यमासु सम्यक् प्रयुक्तासु न कम्पतेज्ञः ऋग्भिरेत्यं तं यजुर्भिरन्तरिक्षं श्यामभिर्यत्तत्कवयो वेदयन्ते त्वमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तरम् अजरममृतम् अभयं परं चेति षष्ठः प्रश्नः अत हैनं सुकेशा भारद्वाज प्रपक्ष भगवन्हिरण्यनाभः भा कौसलो कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नम् अपृच्छत षोडशकलं पुरुषं वेत्थ तमहं कुमारं अब्रुवं नाहमिमं वेद यद्यहमिमम् अवेजिसं कथं तेन न वक्षेतमिति तमूलो वा एष परिशुष्यति यो नृतम् अभिवदति तस्मान्नार्भाम्यनृतं वक्तुम् सतृष्णं रथमारुह्यं त्रव्राज तं त्वां पृच्छामि कौशौ पुरुष इति तस्मै स उवाच इहैवान्तशरीरे सोम्य सपुरुषो यस्मिन्नेता सोडस्कला प्रभवन्तीति स इच्छाश्चक्रे कस्मिन्नहमुत्रान्त उत्तरान्तो भविष्यामि कस्मिन् वा प्रतिष्ठते प्रतिष्ठास्यामिति स प्राणम् असृजत प्राणाश्रद्धां खं वायुर्ज्योतिरापः प्रथिवेन्द्रियं मनः अन्नमन्नाद् व्यर्यं कर्मलोका लोके सुचनाम स यथेमा नद्या स्यन्दमाना समुद्रयाणा समुद्रेण समुद्रम् प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवम् प्रोच्यते एवमेवास्य परिद्रष्टुरिमा षोडशकला पुरुषायणा पुरसम् प्राप्यास्तम् गच्छन्ति भिद्यते चासां नामरूपे पुरुष इत्येवम् प्रोच्यते स एषो कलो मृतो भवति तदस्तदेशः शोकः अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिता तं वेद्यम् पुरुसंवेद यथा मा वो मृत्योपरिव्यथा इति तान् होवाचै तावदेवाहमेतत्परम् ब्रह्मवेद नातः परमस्तीति ते समर्चयन्त्यस्त्वं हि न अविद्याया परं पारं तार्यसीति नमः परं ऋषिभ्योन्नमः परं ऋषिभ्य ॐ शान्तिः शान्तिः शान्तिः तस्य श्रीरामकृष्णार्पणमस्तु